मार्कण्डेयपुराणम् अध्यायं नैन्टि फोर् पितृवरप्रधानवर्णनं मार्कण्डेय उवाच एवं तुस्तुवतस्तस्य तेजसो राशिरुच्छ्रितः प्रादुर्बभूवसहसा गगनव्याप्तिकारकः तद्दृष्ट्वा सुमहत्तेजः समासाध्यस्थितं जगद जानुभ्यामवनिं गत्वा रुचिस्तोत्रमिदं जगौ रुचिरुवाच अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसां नमस्यामि सदा ध्यानिनां दिव्यचक्षुषाम् इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा सप्तर्षीणां तथान्येषां तन्नामस्यामि कामदान् मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा तन्नामस्याम्यहं सर्वान्पितरश्चार्णवेषु ये नक्षत्राणां ग्रहाणां च वायवग्न्योर्नभसस्तथा द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान् अक्षय्यस्य सदा दाद्रु प्रजा पधे कश्यपाय सोमाय च सदा नमस्यामि योगेशरेभ्यमस्यामीताजलि नमो गणेस्तभ्य लोकेशु सप्तसु। स्वुवे नमस ब्रह्मणे योगचुषे सोमारातृगण्योगमूर्तिधरा नमस्यामि तथा सोमं पिधर जगदाह अग्नि नमस्यामि पितृनहम अग्निशोममयं विश्वं यत एतदशेषतः ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तयः जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः तेभ्यो किलेभ्यो योगिभ्यः पितृभ्यो यतमानसः नमो नमो नमस्ते मे प्रसीदन्धुस्वधा भुजः मार्कण्डेय उवाच ये वस्तुतास्ततस्तेन तेजसा मुनिसत्तमनिश्चक्रमुस्तेऽपि तदो दासयन्दो दिशो दश निवेदितं च पुष्पगन्धानुलेपनं तद्भूषितानध स तान्ददृश्ये पुरतस्थितान् प्रणिपत्य पुनर्भग्र्या पुनरेव कृताञ्जलिः नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ततः वरं वृणीष्वेदि सदा नुवाचानदकन्थरः रुचिरुवाच साम्प्रतं स्वर्गकर्तृत्वमादिष्ठं ब्रह्मणा मम सोऽकं पुत्रीमभीप्सामि धन्यां दिव्यां प्रजावतीं पितर ऊचुः अद्यैव सद्यः पत्नी ते भवत्वदिमनोरमा तस्यां च पुत्रो भविता भवदो मनुरुत्तमः मन्वन्तराधिपो धीमां त्वन्नाम् नैवोपलक्षितः रुचेरौच्य इति ख्यातिं यो यास्यति जगत्त्रये तस्यापि बहवः पुत्रा महाबलपराक्रमाः भविष्यन्ति महात्मानपृथिवी परिपालकाः त्वं च प्रजापतिर्भूत्वा प्रजा सृष्ट्वा प्रजा चतुर्विधाः क्षीणाधिकारो धर्मज्ञ तदसिद्धिमवाप्स्यसि स्तोत्रेणानेन च नरो योऽस्मां स्तोष्यदिभ्रितः तस्य तुष्टावयं भोगानात्मज्ञानं तथोत्तमं शरीरारोग्यमर्धं पुत्रपौत्रादिकं तथा प्रदास्यामो न सन्देहो यच्च अन्यदभिवाच्छिदं लोके वाञ्छद्भिः सततं नरैः पितॄणां चाक्षया तृप्तिं स्तव्या स्तोत्रेण मानवैः वाञ्छद्भिः सततं स्तव्या स्तोत्रेणानेन वै यदः श्राद्धे च इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरतः सन्निधाने परेकृते कृते अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयं यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहदं भवेत् अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा अश्रद्धार्हैरुपहतैरुपहारैस्तथा कृतम् अकालेऽप्यथ वा देशे विधिहीनमथापि वा अश्रद्धया वा पुरुषदम्भमाश्रित्य वा कृतम् अस्माकं तृप्तये श्राद्धम् तथाप्येदुदीरणाद् यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावकम् अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी हेमन्ध्ये द्वादशाब्दानि तृप्तिमेतत् प्रयच्छति शिशिरे द्विगुणाब्दांश्च तृप्तिम् स्त्रद शुभम वसंदे षोडश सृप्त श्राद्धकमें ग्रीषोश्वै तत्पिद तृप्तिक विकले भी वर्षासु तृप्तिरस्माकया जाये ऋचे शरत् पठित श्राद्ध काले प्रयकृति पंचदशाब्दी ये लिखित मेंठतिद श्राद्धे तत्र अस्माकं भविष्यति तस्मादेधत्वया श्राद्धे विप्राणां भुञ्जदः पुरः श्रवणीयमहाभाग अस्माकं पृष्टिहे दुःखम् इत्युक्त्वा पितरस्तस्य स्वर्गदा मुनिसत्तमा यदि श्रीमार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृवरप्रधानं नाम चतुर्नवतितमोऽध्यायः ओ